Uh oh. विश्वरूपो वै पाष्ट्र पुरोहितो देवानामासीत् स्वस्त्रियोसुराणाम् तस्य त्रीणि शीर्षान्यासन् स्वपवानकम् सुरावानमन्नाथनकुम् च प्रत्यक्षम् देवेभ्य भागमवदत् पराक्षमसुरेभ्यः सर्वस्मै वै प्रत्यक्षम् भागम् पर्यावर्तयस्य वज्रमाताय शीर्षान्यक्षिनद्यत् स्वमपानमाजयत् सविन्दलाभद्यत् सुरापानकं सकलमिङ्गोनाथिना ब्रह्महत्याभक्तम् भवतान्यशन् ब्रह्म पृथिवेमुपासेदस्ते ब्रह्महत्यागे तृतीयम् प्रतिगृहा णेशातात्परा भविष्यन्ति मन्ये ततो मा भोपमिति पुराते संवत्सराधविरीत्या ब्रभेत्तस्मा त्सरात् पृथग्वार पृथग् ब्रह्म हत्यायै प्रत्यग्रन्धात् तत्स्वकृतमिर्णमभह तस्मादाहिताग्निः श्रद्धादेव स्वकृत निर्णेनावस्यैद् ब्रह्म हत्यायेघवन्हस्तव नस्पदेऽनुपासीदस्यै ब्रह्म हत्याये तृतीयम् प्रतिगृह्णे ते रिषे ब्रुवन्वरम् वृणामहे वृक्षणात्परा भविष्यन्त मन्यामहे तदो मा परा भूमे भ्रश्चनाद्व भोयागम् समुच्चष्ठानित्य भवेत् तस्मादा भ्रश्चनाद् वृक्षाणाम् भूयागम् समुच्चष्ठम् दिवारे पृथग् निश्चे तृतीयम् ब्रह्म हत्याये प्रत्यगृह्णान् स निर्यासोऽभवत्तस्माञ्जल्यासस्य नाशम् ब्रह्म हत्याये गवन्नो खलु जगेवलोहितो वा भ्रश्चनाञ् निर्ये स्त्रे सकम् सादमुपासीदस्यै तृतीयं प्रतिगृह्णेत अब्रुवन्वरं प्रणामहारित्य प्रजां विन्दामहे काममाभिजनित सम्भवास्मास्त्य प्रजां विन्दन्ते काममाभिजनिता सम्भवन्ति वारत्यासां तृतीयम् ब्रह्म हत्यागे प्रत्यगृह्णान् सामलभद्वासा अभवत् तस्मात् हास्या वन्नम् प्रतिमुच्यास्ते सो खल्वाहुरभ्यञ्जनम् भावस्त्रिया अन्नमभ्यञ्जनमेव न प्रतिगृह्यम् काममन्य श्रियाम् मलवद्वासतकम् सम्भवन्ति यस्ततो जायते सोऽभिषस्तो यामरण्येतस्यैस्तेनो याम् पराजीस्यै कृतमुख्यपकल्पो स्याप्सुमारु गोयाभ्यन्तै दुश्चनुप्रलिख दैतस्यै खलतिरपमालीयाङ्गैदस्यै काणो या धावस्यै श्यावधनया नैतस्यैकु नृणतिरस्यैको यज्जकम् सृजलितस्या उद्बन्ध गोया वर्णेन विफलितस्या उन्माद गोया दञ्चनिना वापि वेण खर्वेण वा पात्रे न प्रजाये पुत्रीन्द्रगुंस ममाहर तस्मिन् उपहवमै स्वाहेन्द्रशत्रस्य स्मादस्येन्द्र शत्रुरभवत्स सम्भवन्नग्नेत्रमिषु मात्रङ्गवर्धनृणा वृत्तत्वं तस्मादिन्द्राभेत् स प्रजापतिमुपाधावच्छत्रुर्मे जने जि तस्मै वद्रगुम् धिक्त्वा प्रायच्च देतेन जहे जितेनाभ्यायज ्रूतामग्नेशो भौमाप्रहारामन्दस्मयुति वायित्यब्रवीन्नामभ्येदमिताभ्यामेतमग्नेशो मेयमेकादशोर्णमाभ्या प्रायच्छतावब्रूतामभिसन्दष्टो वै स्वनशक् आत्मनश्चेतदोरावजनयच्छेतदोरया जन्मय ंशेतलोरयाजन्मवेदनेन गंशेतलोरौ हदस्ताभ्यामेणमभ्यनयस्तस्माञ्जभ्यमाना ऋग्वेदो मोजरक्रामतां प्राणापानौ वायनन्तरजहितां प्राणो वेदक्ष बाणकृतस्तस्मा जञ्जभ्यमाना ब्रोजान् वैदक्षकृतो विधिप्राणापानादेवात्मन्धत्ते धर्ममायुवेदि ृत्रान् निरहोयवाग्भम् भगप्नमासे निरवृह्णन्ति वामाभास्यायायन् निरस्माघ्ने पृथम्बते अमाभास्यायान्तच्छाग्भगम् भगवमादाय पुनरभ्यायदते अभ्रूतान् वा पृथिवीः प्रहारावय अब्रोदाम् परम् वृणावहै नक्षत्रविहिताहमधाने यथावब्रवे क्षेत्रविहिताहमिधेयन्तस्मान्नक्षत्रविहिताहो क्षेत्रविहितेय्या वापृथिव्यार्वरं वैदेहम्बला गच्छति सेव प्रसोत इन्द्र वृत्रमहन्ते देवा वृत्रगु महत्वाग्नेशा मावब्रुवनहव्यन्ना वहतमिताम ब्रूतामपदेजसौ वैत्योभित्रे वैत्यजास्त्य ब्रुवञ्च इदमक्षैते जि गौरित्य ब्रुवङ् गौरवापधर्वस्य मित्रमिति धा ब्रमेद्वरं वृणेमयसतो भयेन भुनजाद्वायति सतो भयेन भुञ्जतये तद्वाग्नेयस्तेजो यतमेतत्सोमस्य ज्वयो जगे महाग्नेभयोस्तेजो ैव भवति ब्रह्मवादिना वदन्ति किन्द्रे भक्त्यम् बहून्नमासमिति प्राजाभक्त्यमिति ब्रूया तेनेन्द्रम् ज्येष्ठम् पुत्रम् निरमासाय धनेन निरवसाययन्ति ृत्रिवागं प्रान्तसेतं वै मृतं पूर्णमाशेन भक्तेन मृतपूर्णमासे भवति मृतगेवतेन गजमानोपहतयेन्द्रभृत्रगं हत्वा देवताभिष्टेन्द्रियेण कुर्व्यार्थेतमा ज्ञेयमष्टाकपालम् मास्यायामपश्यतेन्द्रन्दधितन्य रवपत्ते न वेश देवताश्चेन्द्रियञ्चावारुन् जयदाग्नेयो शाकपागो मालास्यायां भवत्तेन्द्रन्दधि देवताश्चैव तेन इन्द्रस्य वृत्रम् जगृष इन्द्रियम् वेद्यम् पृथिवे मनव्या सप्तदोषयो वेदसो भवन् प्रजापतिमुपाधावद्भृत्रम् जगृष इन्द्रियम् वेर्यम् पृथिवे मनव्या रक्तदोषधयो वेदसो भो पन्निषितः प्रजापति पशो सायस्य प्रत्यदुभं तत्प्रतिदुडः प्रतिधुप्तगुं दमनेष प्रत्यदुःखण्डतु महिश्रय नैर्त्यब्रवीदे तदस्मै शुतं कुरु चेत्यब्रवेतदस्मै शुतमकुरु मन्दिन्द्रियं वाभास्मिन्वेर्यन्तरश्रयं तत्क्षुतस्य च तदस्मै दधि गुरुतेवध्यदिन्द्रियमेवाद्य श्रुत्वा दध्वादिगता ौम्यम् तद्येराक्षसम्भ्यासनग्रेत्या इन्द्रभृत्रगच्छत पादा मन्यमानस्तम् देवतात्रैषमेच्छन् ्रजेत् प्रजापजर्य प्रथमो न विन्दलिलस्य प्रथमं भागधे गणलितं पितरान्वन्दन्तस्मापूर्वेद्य प्रियदेशो माभास्याम् प्रत्यागच्छत्तमगच्छन्तामावेग्यवसवसतेन्द्रोहि देवानां वसुदनमाभास्यायामावास्य तं ब्रह्मभादिना वदन्ति किन्दे ेवत्यगम् नार्यमिति वैश्वदेवमिति ब्रूया यष्पेभितद्देवाभागधेयमभिसमगच्छन्ते यथो खल्मीन्द्रमित्येव ब्रूयादिन्द्रम् भावते तद्भिषद्यन्ताभिगमगच्छन्तेति ब्रह्मपादिना वदन्ति सत्त्वे दर्शवोऽन्नमासौ यजय जयेनौ सेन्द्रौ यजय जयति वै वृथः पूर्णमादेनुनिर्भाप्यो भवन पूर्णमादस्येन्द्रायैन्द्रन्दभ्यमाभास्यायान्ते न माभास्यासेन्द्राय एवं वित्रान्दर्शवोन्नमासौ यजतेधेन्द्रा एव यजते श्वश्वास्मायै जानाय भवति देवा वै यस्ति देवा एतापृष्टिमपश्यन्नाङ्गा वै स्वमेकादशगवादगं सरस्वती जलगुं सरस्वते चलन्तां पौर्णवादगं सद्गस्थाप्यानुनिरवन्ततो देवाभवन्परादुराय भ्रातुर्व्य पौर्णवादगं सद्गस्थाप्येतामिष्टिमनुर्भवेत् पौर्णमाते नैव वज्रं भ्रातुं याय प्रभृत्याज्ञावये नवेन देवदाश्चैद्यं च भ्रातुं यस्य वन्दे मिथुनान् वशन्तारस्पदाभ्यां यावदेवास्यास् यत्सर्वं वृन्दे पौर्णमाधीमेवयजे तभ्रातुं यभान्नामा वास्यागं हत्वाभ्यादुर्व्यन्नाप्यायेति सागं प्रस्थायै ल्पे नाहरन् दिनात्मनादृप्यदिनान्यस्मै ददाति यस्मै महतादृप्यत्यात्मना ददाप्यन्यस्मै महता पूर्णगुम्भो दव्यम् धृत्तयैवैनमिन्द्रः प्रजया पजुभिस्तपै दिदानुभाग्रेण जुभो दिनभिमाहुतिमानसाहुदुम्बरं भवत्यौर्वाहुदम्बरवोर्जैवास्मानोर्जं पशोरवरुन्धे नागदश्रेर्मे ेन्द्रयज दत्र योगे गतस्य यश्न श्रुवान्द्रामणि राजन्यस्तेतां महेन्द्रो देवता योगे स्वान् शरस्य पदस्तादग्नय व्रतपदय पुराणादमष्टाकपालम् निर्वह संवत्सरमेवनम् वृत्रम् च घ्रिभागम् समग्नम् प्रतपदर्पतमालम्भयति ततोऽभिकामम् जनेत सोमया जेसन्नयेतनागतम् वागेतस्य परियो सोमया जीयत सोमया जीसन्नयेत्परिमोच एव सोमृतम् करोच्यसोपरेव सिच्यते सोमयाजेव सन्नयेत्पयो वे सोमः पयः सान्नाय्यम् पयसैव पय आत्मन्धत्ते विवागेतम् प्रजया वशुभिरर्थयति बद्धयत्यस्य भ्रातुर्व्यङ्ग्यस्य हविर्निरक्तम् न्द्रमा अभ्युजयत्रयधा तन्तुलाभज्यमास्तुष्ठास्तानिन्द्राय प्रदास्तानमिष्टमेवास्मै प्रजान् प्रजनगति वृद्धामिन्द्रः प्रयच्छति यज्ञामे विष्टं प्रसवस्य परि यज्ञ एव ेष्ठदिनद्वेतजपूर्वया सम्प्रदयजेतोत्तरया शम्भक्त्वर्याद्योत्तरया सम्प्रदयजेतपूर्वया सम्भक्त्वर्यान्यस्तदक्षेतमुख्यगर्भो जागतयेकामेव हि जेतप्रगर्भोऽस्य जागते नादृत्य तद्वे एव हि जेत यज्ञमुखमेव पूर्वया न उत्तरया देवता एव पूर्वया पद यमुत्तरया देव लोकमेव पूर्वयाभिजयति मर्षलोकमुत्तरया भूयतोऽनुपये जा सुमनामे जानम् पश्चाच्चन्द्रमाभुजयेत्यस्मिन्मेवात्मै लोकेऽर्धुकम् भवति दाक्षायण यज्ञेन सुभर्गकामो यते च पूर्णमाचेधन्दनेन्मयेत्रावरुण्यामि पूर्णमा सेवै देवानागं सुरस्तेषामेतमर्थमासंरस्तेषा मैत्रावरुणे वशामाभास्यायामनो बन्ध्यायत्यय देवेति वेपदत्करोति यद्वत्सारपाकरोति सोऽहयत्थाने एव सत्यागं सम्पादयति स एतमर्थमासगं समादं देवै स्वामं विपजयन् वृण्यामि क्षयामाभाजतयैवासो देवानाम् शालो भ्यासो यैवैषैतस्य साक्षाद्वादेश था देवानभ्यारो हतिगरे यज्ञमभ्यारोहति यथा खलु वे श्रेयानभ्यारूढः कामय चेतसा करोधियद्य भविभ्यदिपापीयान् भवति यदि न भविभ्यति सङ्ग्यावृत्कामये तेन यिज्ञेन यजेतक्षुरभवृत्ते जिज्ञायः पुण्यो वा भवति प्रभामीयथेतस्यैतद्वदन्नानसंवधेन्न वागं समष्टान्नस्ति यमुपे यान्नास्त्यपन्कोलनेन वासः पङ्कोलेन प्रेतस्थि सेवा सर्वम् न कुर्वन्ति अहं ेवरसो यत्तर्जपोऽन्न मासो योदर्जपोऽर्नभा विश्वासो मे नष्टगेवावसानेवतानिवा अङ्गापरोगितं वत्सरस्वत्तर्जवोऽन्न भासो य एवम् विद्वान्तर्शपोऽन्न मासो यजतेऽगापरोगश्चेपथम् वत्सरस्य प्रतिदधात्येते वत्सरस्य चक्षुषेत्तर्शप दर्शपोर्णमासो यजतेव सुमनपश्चामि देवानां विक्रान् यद्दर्शपोर्णमासोज एवमृतान् दर्शपोर्णमासो यजते देवानामेव विक्रान् विक्रमदेष पन्था यद्दृशपूर्णमासोज एवं विद्रान्तलश पूर्णमासो यज ते ये भगानः पन्थास्तगुं समारोहत्येतौ वै देवानाकुम्हरि यद्दर्शपूर्णमासोजय एवं विद्यान्तलश पूर्णमासो यज ते यामेव देवानाकुम्हरिताभ्यामेवैभ्यो हव्यं महत्येतद्वै देवानामास्यै यद्दर्शपूर्णमासो जय जते साक्षादेव देवानामास्तेजोर्णमासगाजी प्रातरज्ञहात्रञ्जुहोति गजते दर्शपूर्णमासापहर हर हृद्धानि नायुं सुतों विद्वान्तर्शपूर्णमासो यजते हविर्धान्यस्मेति सर्वमेवाश्च परिशिष्ट्यं दत्तं भवति देवावाह ौर्णमासाव पुनन्तौ वाजतौ मे ज्यौ यद्दर्शपौर्णमासौ य एवं वित्तां तर्शपौर्णमासौ यजते भूतावै वैनो मे ज्यौ यजते नामाभास्यायाञ्च पौर्णमास्याञ्जस्त्रियमुपेयाजुपेया निन्द्रियस्या सोमस्य वैरायमासस्य रात्रयः पत्रयः सन्ता राममाभाश्चामादे छद्राजानै लक्ष्महा रजद्रादि लक्ष्मस्य जन्म यत्पापि यानत्पाप लक्ष्मस्य यज्जायाभ्यामविन्दत्तज्जाये एव मेते धाय यक्ष्माणाञ्जन्मवेदनैरमेते लक्ष्माविन्दन्ते एव नमस्त्यन्म पादा ते अब्रूताम् परं वृणावः आम् देवानाम् भागधे असा भाव हि देवा इद्यान्ता इति तस्मात् सदृशी नागौरात्री नाम माभास्यायाञ्च पौर्णमास्याञ्च देवा विद्यन्तये च हि देवानाम् भागधे भागधा अस्मै मनुष्या भवन्ति य एवम् वेदभूता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 ेन यजुष्यश्रयन् जते धावन्मेवाश्रयन्त हिङ्करोदि सामेव कलिहिङ्करो देवाश्रयम् जत एवैनान् प्रयुञ्जयिङ्करोति वाचगेवैशयो गोभिङ्करोति प्रजागेव त्यजमानश्रिजतेऽत्र प्रथमामन्वाहत्रिमुत्तमाङ्गज्ञस्यैव यद्वरिषन्न क्यत्यप्रस्पृगंसायसन्तदमन्वाहप्राणानामन्नाज्ञ त्यासो <Sessantra> रदामपहत्ते रासन्तरें प्रथमामन्वा हरासन्दरोपा अयं लोक इममेव लोकमभिजयदित्र विगृह्णादित्र इमे लोका इमानेव लोकानभिजयतिवार्हलेमुत्तमामन्वाहपार्हतो असौ लोको मुमेव लोकमभिजयति प्रभो माजायित्यनिरुङ्काम् प्राजाभत्यामन्वाहयज्ञा मे र्यज्ञमेव प्रजापतिमारभते प्रभो वाजायत्यन्वाहान्वावन्ध प्रभो वाजायत्यन्वाहतस्माजाहतस्मा प्रजायन्त प्रभो वाजायत्यन्वाहमासा वै वाजामासा अभिद्यवो देवाः विष्पम् यज्ञो देवाञ्जिगाजिरमानस्त्वं नेस्य देवा प्रियन्धामावरुन्धे सर्वमायुलया प्रभो वा जाहितश्चायुधारमर्थमालभेदप्राणेनैवास्यानन्दाधारमायुले त्रियोसामिदारत्नावेव भ्याङ्कुरु सत्यवसन्दधा अदत्रसामिधेनीना एवम् वेदा रत्रामेवभा्यम् कुरु दर्शे दर्शेर्वा एता निर्म्यगच्छामिधेन्यस्तागतसंयुक्तास्य प्रजया वजभिर्मितमानस्य विजक्षेरन्दर्धत्योऽ सन्दधा च संयनकदेवैः अस्मै संयुक्ता अवरुद्धाः सर्वा यज्ञो वादेशयो सामाग्याहि वीरजमित्याह रथङ्करश्रेषवर्णस्तिरङ्गिरमित्याह वामेव्येषवर्णो बृहदग्ने सुमित्याह बृहदेषादित्युवन्ने देव र्यो भामेत्यज्ञायाधिगीतयणित्यस्मिन् लोकेग्ने सुमित्य नमस्मिन् लोकाधित्यन्ततोमाहिमो लोकावशाम्यतान्यदेवमन्वाहानयो लोकयोश्रान्त्यैषाम्यतोऽस्माभिमो लोको यगेवम् वेद पञ्चदशतामिधेये अन्वाह पञ्चदश वार्धमासस्य रात्रयोऽर्धमासुरः संवत्सर आप्यगेताम् त्रीणि शराणि षष्टिश्चाक्षराणि तावदे संवत्सरस्य रात्रयोक्षरश एव त्रिवेधश्च परुक्षेव ब्रह्मवाद्यमवदे रुक्षेपोऽभ्यमधत्सो चक्षमापद्विद्वकथात्मज्ञनाहमिति सामिधेनी मेवाहम् वर्णम् वेदेच्च देशहार्णस्तन्ता समिद्ध्यरञ्जिताहसामिधेने श्रेमद ज्योतिर्जनयति स्त्रियस्ते नयदृज स्त्रियस्ते नयद्गायत्रि अस्त्रियश्च नयत्सामिस्तेन काव्योऽसुरानान्तो प्रजापतिं प्रष्टमैका प्रजापतिनग्निन्दूतं वृणेमयत्रभिपर्यावन्तयश्चैवं विदुषा ृम हरिजन्वाह भवत्यात्मनापदास्य भ्रातरु य भवत्रेमन्वाहभातरुतया सोजश्चित्याह पवित्रमेव स्कन्दाय सर्वोधमभ्याप्यसायपस्कन्द्रात्रयोग्रयोक्षासुराशुंसन्ते वाहनमित्याहय एव देवानां वृणेत आरुधेयं वृणेते बन्धो देवने दर्वा परस्ता दर्वा चोते तस्मा परस्ता दर्वान् च मनुष्यान् वितरो न प्रपिपते अर्गे महानुम् असेत्याह महानित्यैत्याह ब्राह्मणा चैकभारतेत्याहैषहि देवे द्रोहव्यम् भरति देवे भगित्याह कविशस्तवयोक्षुश्रवायुंस ब्रह्मजगंषु दयित्याह ब्रह्मजगुंषिसाहव्याः साहुदीर्यस्य प्रियतमः प्रणेर्यज्ञानामित्या ैष देव्याहनकेतङ्कश्चनोन्यत्याहतर्भ ज्यक्षे न्याहोर्देवानामित्याह जङ्केण देवानां च मसो देवपान इत्याह च मतोपानो रागं जावायस्तम् रीत्याह देवा देवानिषपरिभोर्यद्ब्रो या दावः देवान् देवयते देवा देवा यजमानायै विभ्रादुर्व्यमस्ते जनये दावः देवान् यजमानाय देवा त्याह यजमानमेवै तेन वयत्यग्निमग्नामहसौ ममावहेत्याह देवता ये पदद्यथा पूर्वहुमा यथा देवा व्यवहस यादय जातवे दयित्याहाग्निमे पदत्सस्य जसोस्त्यम्भितो देवेऽभ्यो हव्यं महत्यग् देत्याहाज्ञै देवाना कुम्भोदाय एव देवाना कुम्भोदातं वृमे स्म भयमित्याहात्मानमेव सत्त्वङ्गमयति साधु ते यजमान देवदेशमेवैतामाशास्ते यद्ब्रूयाद्भ्यो होता रमवृथा यत्यग्निनो भयतो हि न मानम् परिगृह्णीयात् रमायुतस्यान देवत्या वेजुर्भ्यातमिव देवत्या ृजमाश्चेत्याह यजमानमेवैतेन वर्धयति देवायवमित्याह देवानिक्यै गावति विश्ववा रामित्यामृष्टज्ञामती राम है देवागीरेण्यान्नमस्याम नमस्याम यज्ञिगादित्याह मनुष्या वा हिरेण्या पुनरा नमस्या देवा यज्ञिया तेजस्त्रिजाननुब्रोजाद्राजन्यस्य त्रयोवारण्ये राजन्याः पुरुषा ब्राह्मणो वैश्यश्रोद्रस्तानेव सा अनुगाकरोपञ्चदशानुब्रोजाद्राजन्यस्य पञ्चदशो वेदाजन्यस्व गेवेनाग्रस्तो मे प्रष्ठापयति त्रष्टु भा परिदध्यादिन्द्रियम् वे द्रष्टगिन्द्रियका बः खलु वैराजन्यो यजते त्रष्टुभैवात् स्मादिन्द्रियं परिगृह्णाति यसिकामय ब्रह्मवर्चमस्त्यधिया परिदध्यात् ब्रह्मवर्जदम् वै गायत्र्ये ब्रह्मवर्जदमेव भवति सप्तदशानु सप्तदशो वै वैश्वस्त्वम प्रतिष्ठा वयति जगत्या परिदध्यात् जागता वै पशवः पशुकामक्रनु वै वैश्यो चे जगत्यैवास्मै पशोन् विंशतिमनब्रोजात् प्रतिष्ठा गामस्यैक विंशस्तोमानाम् प्रतिष्ठा प्रतिष्ठेत्ये चतुर्विंशतिमनब्रोजः ब्रह्मवच्चसगामस्य चतुर्विगंशत्यक्षरागायत्रैकायत्रे ब्रह्मवच्चदङ्गायत्रियैवास्मै ब्रह्मवर्च्चमवरन्ध त्रिविंशदमनब्रोजादन्नकामस्य त्रिविंशदक्षरात्रम् विराञ्विस्मान्नाद्यमवरन्ध ृकं शदमनब्रूजात्पदिष्टा कामस्य द्वात्रिकं सदक्षरा नष्टकनष्टा पृदक्षत्यशुकामस्य क्षत्रिकं सदक्षरापशव बृहत्यैवास्मे पशोनवलन्धे कृतश्चत्वारिकं सरमनब्रूयादिन्द्रियकामस्य चतश्चत्वारिकं सदक्षरात् तृष्टन्द्रियम् न्धेष्टादत्तालमनम् ब्रोजा पशुकामस्याष्टागत्तारिकम् स चा जगजीजागदा पदवो जगत्यैवास्ते पशोनवरुन्धे सर्वाणि छन्दा कश्चन ब्रोजान् बहुयाजिनः ेदं मनुष्याणां प्राजेनावेदं पितृणामुपवेदं देवानामुपव्ययते देव लक्ष्मेव तत्पुरुते तिष्ठण्डन्वाहतिजत्या आसीनायत्यस्मिन्नेव लोके प्रतिष्ठति यक्रौञ्च मन्वाः सुरं तद्यन्मन्त्रं तद्यदन्तरा तत्सदेवमन्तरा नोच्चं सदेवक्ताय विद्वान् वा रुन्धेथ परिमितञ्च परिमितञ्चागश्चैव्यागश्चावरुन्धेथो देवलोकञ्च ष्टोकं चाभिजयति देवा वै सामिधेनेरणो गण्डान् न पश्यान् स प्रजापयस्तोऽष्ट्यैवाघारमाघारणत्ततो वै देवाभिज्ञमन्नपश्यनु यत्तोष्टैवाघारमाघारयति यज्ञस्यानुख्यात्याथो सामिधेने देवाभ्यलोक्षो भवतिग एवं वेदाथो दर्पयत्येवै मास्तृप्य प्रजया पशुधन्येवं हन्देव्यं वहामेति वाक्रवीरहन्देव प्रजापतिम् प्रष्टमेतांसे प्रजापद ेव त्वम् मनसोऽ मनसा ध्यायवितरद्वाचावदति वितत्क्षन्नवाचायुहवन्नित्यप्रदे तस्मान् मनदा प्रजापदये बहि प्रजापति प्रजापते संवान् पुरान्त्रम् मध्यमन्त्रयोगेन प्राणा प्राणानैवाभिजयदक्षिणाद्य लोका इमानेव लोकान् अभिजय रुभ्यन्तयोगैदेव यानास्पन्थानस्तानेवाभिजयति त्रित्रयोगैदेव लोकादेव लोकानेवाभिजयति द्वादश सम्पद्यन्ते द्वादशमासात्सरमेव प्रीणाक्षतो संवत्सरमेव बाहुवदधादितु वर्गस्य लोकस्य समष्ट्याधारमाधारयति धिरजिभवेषु भर्गो लोकस्तु वर्गमेवास्ते लोकम् जयत् त्रिजमाघालयत् त्रिजले प्राणस्तन्तमाघारयति प्राणानामन्नाद्यस्य सन्दत्याहत्येयम् कामय प्रवाजकस्यादिति जिह्मन्तस्याघारय म्भन्दयति ताजप्रमीयते शिरोमा एतत् यज्ञस्य यदाघार आत्मा ध्रुवाघारमाधार्य ध्रुवाकम् समनख्यात्मन्यत यज्ञस्य प्रतिथा यज्ञवासी देव्यजापतिम् प्रष्टमेताकंस प्रजापति ब्राह्मणमब्रवीदेतस्वित् ब्रूहेत् देवाश्रु ्रवीणो हो ते एव देवानां देवान् पराधुरायस्यैवं विदुषः प्रबलं प्रवृणते भवत्यात्मनाभ्रात जब्रामश्चाभ्राम्णश्च प्रष्टमेगाताम् राम्भणाया जो या, या जब्राम् भनायात्मने जैवानामोर्ध्व विद्युदम् वसानः नम् वहन्तेः पर्यन्ति जेः समन्यायन्त्युपयन्त्यन्याः समानमोर्वन्न शुरे दिवागुम् समपान्नपादम् परितस्थुरापः समस्ते राजभटयोमानाः पर्यन्त्यापः स्वशुक्ते शक्मना रेवन्निगप्सो इन्द्रावरुणयो न हिम् सम्राजो नावणे तानो वृणा चे इन्द्रावरुणायमध्वराय नो विषेजनाय शर्म यच्छदम् एप्रयज्योदयो भविष्यति भयम् जयमृतनाथोढ्यः आनो मित्रावरुणा प्रवाहवाज्ञे वरुणस्य ोषिताना यस्माद् सर्वे मम सुहवो न प्रायमज्ञर्भरदस्य चन्द्रे वियत्सौर्यो न वचते अभियपौनम् पृतनासु तस्थो गीता यथैव्यो अतिथिः शिवो नः प्रत्य धान्यः रुक्षयेद्वागम् स विदुष्टरघुम् सेम सज क्षत्रिस्मा वयिनानि विद्वान्प्रहव्यमग्निरमृते शकोचते अगुम्भो बुचे जयन्माविन इन्द्रेन्द्रक्षत्रमिन्द्रियाणि शतक्रतोनुदे